नमस्सर्वेभ्यः अस्माकं योगनिष्ठजीवनम् इति वर्गे भवतां सर्वेषां स्वागतं तर्हि अत्र किं वक्तुमिच्छामि इति चेत् यस्य कस्यापि साधकस्य जीवनं लक्ष्यम् अवश्यं भवेत् लक्ष्यं विना वयं तु तादृशी तादृशी यात्री भवामः यस्य युनो लक्ष्यं विना यत्र वयं गच्छामः इति वयं न जानीमः इतः ततः वयं भ्रमामः अतः सर्वदा अस्माकं जीवने लक्ष्यम् अवश्यं भवेत् लक्ष्यं विना जीवनं निरर्थकम् अतः अवश्यम् अस्माकं लक्ष्यं भवेत् अपि च किं लक्ष्यं भवेत् इत्यपि अस्ति साधकस्य जीवनं किं लक्ष्यं भवेत् यत्किमपि भवितुमर्हति वा इति चेत् साधकस्य जीवनं श्रेष्ठं लक्ष्यं भवेत् तत् लक्ष्यं किम् इति चेत् भ्रम एव भ्रम एव श्रेष्ठं लक्ष्यम् अस्माकं जीवने आधारस्य आवश्यकता अस्ति यदि तत्र दृढतमः आधारः नास्ति तदानीं जीवनं तत्र यदा कष्टमायाति तदानीं जीवनं इतः ततः गच्छति वयं दुःखिताः भवामः अग्रे गन्तुं तत्र बहवः समस्याः आगच्छन्ति अतः जीवने सर्वदा एकः दृढतमः आधारः भवेत् सः आधारः ब्रह्म एव भवितुम् अर्हति ब्रह्म विना अन्यत् किमपि भवितुं नार्हति यतोहि अन्यत् सर्वमपि अनित्यम् अस्ति खलु अन्यत् सर्वं नश्यति तस्य तात्कालिकः तात्कालिकः अवस्थितिः अस्ति अतः किं निरन्तरम् अस्ति सर्वदा अस्ति इति चेत् ब्रह्म एव सर्वदा अस्ति इदानीं तत्र यः साधकः अस्ति तस्य किं समस्या भवितुं तत्र का समस्या भवितुमर्हति साधकस्य जीवने यः साधकः अस्ति तस्य तस्य आधारः ब्रह्म एव अस्ति परन्तु तस्य जीवने का समस्या भवितुमर्हति इति चेत् तत्र स्पिरिच्युवल् प्रोक्रास्टिनेशन् आध्यात्मिकविलम्बः आध्यात्मिकः विलम्बः इति घातकः भवति इत्युक्ते इत्युक्ते अस्माकं लक्ष्यं किम् इत्यत्र भ्रमः यदा आयाति इदानीं मम लक्ष्यं ब्रह्म इति मया निर्णीतं परन्तु तस्य विस्मरणं कदाचित् जायते इत्युक्ते अग्रे यदा जीवने अग्रे वयं गच्छामः तदानीं मम लक्ष्यं किं मम प्रियलक्ष्यं किम् इत्यत्र भ्रमः यदा भवति तदानीम् इत्युक्ते तस्य जीवने तस्य जीवनमेव निरर्थकं भवति तादृशं भवति चेत् इत्युक्ते तत्र जीवने यदा लक्ष्यं भवति तदानीं केचन नियमाः भवन्ति नियमानाम् आचरणम् आवश्यकमस्ति लक्ष्यं यदा भवति लक्ष्यस्य प्रापणार्थं नियमाः अवश्यं भवेयुः खलु तर्हि तत्र नियमानां पालनम् अवश्यम् अस्माभिः करणीयं परन्तु यदा साधकः नियमानाम् उल्लङ्घनं करोति तस्य पालनं न करोति तस्य अनुसरणं न करोति नियमानाम् अनुसरणं न करोति सः चिन्तयति सः एव अहङ्कारेण सः चिन्तयति सः महान् वर्तते अतः किमर्थं मया एतत् सर्वं कर्तव्यम् अहमेव महान् अस्मि इति तादृशज्ञानेन अहङ्कारः अथवा अन्येन अहङ्कारः यदा भवति तदानीं तत्र आध्यात्मिकविलम्बः जायते प्रोक्रास्टिनेशन् जायते तदानीं तत्र यदा आध्यात्मिकः विलम्बः जायते तदानीं किं भवति इति चेत् लोके सीमितवस्तूनि तेभ्यः सः आकर्षितः भवति स्वस्य लक्ष्यस्य विस्मरणं जायते लौकिकवस्तुभ्यः दैनन्दिनजीवने लौकिकवस्तुभ्यः तस्य आकर्षणं वर्धते यदा आकर्षणं वर्धते तर्हि सः तस्य लक्ष्यं तत्र लक्ष्यस्य हानिः भवति लक्ष्यस्य हानिः भवति इति साधकस्य जीवने कश्चन किमस्ति ड्यू टु प्रोक्रास्टिनेशन् प्रोक्रास्टिनेशन् आध्यात्मिकविलम्बात् एतादृश एतादृशी समस्या आयति तर्हि तत् कथं वयं निवारयितुं शक्नुमः तत् कथं वयं निवारयितुं शक्नुमः अस्माकम् आध्यात्मिकदिशि सर्वदा वयं, बवा, वयं, वयं तत्र एव भवामः भवामः वा न वा इति कथं वयं ज्ञातुं शक्नुमः इति चेत् तदर्थम् अस्माभिः तत्र ये नियमाः सन्ति तेषाम् अहं पालनं करोमि वा इति आत्मनिरीक्षणं करणीयम् इति मया उक्तम् आत्मनिरीक्षणं करणीयम् आत्मनिरीक्षणं कथं कर्तुं शक्यते इति चेत् यदा यदा कश्चनः पुरुषः अस्ति श्यामः अस्ति सः किमपि करोति तदानीम् अन्यः तस्य तर्ड् पार्टि रूपेण तस्य निरीक्षणं करणीयम् इदानीम् अहं किमपि कार्यं करोमि तदानीं तत्र निरीक्षणं करणीयम् एतत् कार्यं समीचीनं वा न वा सम्यक् अस्ति वा न वा मया कर्तुं शक्यते वा न वा इति यदा वयं अन्य अन्यपुरुषरूपेण तस्य निरीक्षणं कुर्मः तदानीं वयं ज्ञातुं शक्नुमः तत् कार्यं सम्यक् अस्ति वा न वा तर्हि अन्यपुरुषः स्वतन्त्रतया चिन्तयति स्वतन्त्रतया चिन्तयति यदि अहं किमपि गर्वेण कर्तुम् इच्छामि अथवा किमपि गर्वेण कर्तुम् उद्युक्ता अस्मि तदानीं तत्र अन्यपुरुषरूपेण तत्र आयाति सह तत् कार्यस्य निरीक्षणं करोति कृत्वा सः वदति न न एतत् सम्यक् कार्यं नास्ति एतत् कार्यं नियमानुसारं नास्ति इदानीम् अहं यदा चायपानं कर्तुम् इच्छामि तर्हि चायपानं सात्विकं नास्ति इति अहं जानामि परन्तु तस्मिन् क्षणे क्षणिकरूपेण मम भ्रमः जातः अहम् इदानीं तत्र सर्वे गृहे सर्वे पिबन्ति इति कृत्वा अहमपि पातुम् इच्छामि इति अथवा अन्यत्र कुत्रचित यदा वयं गच्छामः तत्र अन्ये जनाः पिबन्ति इति कृत्वा ममापि क्षणिकरूपेण ओ अहमपि पिबामि इति तादृश आकाङ्क्षा आयाति तदानीं तत्र आत्मनिरीक्षणम् अस्माभिः करणीयं तदानीम् अन्यरूपेण तत्र उपस्थितः भूत्वा सः पश्यति ओ ना, ना, ना इदानीं चायपानं तु सा, सात्विकं नास्ति मया पातव्यं मम लक्ष्यं किम् अस्ति मम लक्ष्यं ब्रह्म एव अस्ति अतः एतत् न इति तादृश निरीक्षणं यदा वयं कुर्मः तदानीं वयम् अवगच्छामः यत् न न इदानीम् न पिबामि चायपानं न पिबामि यतोहि तत् सम्यक् नास्ति मम स्वास्थ्यस्य कृते कृते सम्यक् नास्ति मम आध्यात्मिकवर्धनार्थमपि सम्यक् नास्ति इति एवम रीत्या प्रत्येकं कार्यं यदा वयं कुर्मः तद् नियमानुसारं नास्ति चेत् आत्मनिरीक्षणम् अवश्यं करणीयं तत्र सङ्घर्षः अपेक्षितः तत्र सङ्घर्षं विना किमपि न साध्यते अपेक्षितः तर्हि एतत् सर्वम् अतीव विशेषरूपेण अस्माभिः कर्तव्यं प्रत्येकं कार्यस्य कृते तत्र द्रष्टव्यम् अहं नियमानुसारं पालनं करोमि न न करोमि चेत् तत्र आत्मनिरीक्षणम् अवश्यम् अस्माभिः कर्तव्यम् एतदेव तृतीयपक्षं स्वीकृत्य तृतीयपक्षं स्वीकृत्य अहङ्कारस्य जालम् अहङ्कारस्य जालम् इन्स् वेब् आफ़् दि अहङ्कार अहङ्कारस्य जालम् अतिक्रम्य अस्माभिः आत्मनिरीक्षणं कर्तुं शक्यते यदा तृतीयपक्षरूपेण आत्मनिरीक्षणं कुर्मः तदानीं तत्र अस्माकं अन्तचक्षुः उद्घाटितः भवति तदानीं वयं नियमन नियमस्य पालनं नियमस्य भङ्गः भङ्गः अस्माभिः न क्रियते तदानि तदानीं मनः अपि प्रेरितं भवति जीवनस्य मुख्यलक्षस्य मुख्यलक्षस्य स्मरणमपि भवति एतद एतादृश अभ्यासः अस्मान् मार्गे स्थापयितुं बहु लाभदायकम् अस्ति अपि च अन्यत् उदाहरणमस्ति यदि अहं कश्चन पुरुषः अस्ति अहं तं पुरुषं कदापि न इच्छामि अहं तं पुरुषं कदापि न इच्छामि मम मनसि घृणाभावः यदा आयाति तदानीमपि वयम् एवं रीत्या तृतीयपक्षं स्वीकृत्य स्वीकृत्य आत्मनिरीक्षणं कर्तुं शक्यते तर्हि सः तृतीयपक्षः कश्चन अस्ति इति मत्वा सह वदति न न इति तत्र अष्टपाश अष्टपाशसु घृणा इति अपि अन्यतमः अस्ति लज्जा घृणा जुगुप्सा इत्यादयः सम्यक् नास्ति अस्माकं आध्यात्मिकवर्धनार्थं सम्यक् नास्ति इति कृत्वा तत्र इदानीं तत्र घृणा मया न इति आत्मनिरीक्षणेन वयम् अवगन्तुं शक्नुमः तदानीं तस्यां तस् तस्मिन् तस्याम् अवस्थायां वयं घृणायाः भावं वयं त्यजामः इति एवं रीत्या सर्वदा आत्मनिरीक्षणं करणीयम् एतादृशं वयं कुर्मः चेत् आध्यात्मिकदिशि अस्माकम् अग्रगतिः अवश्यम् एव भवति इति hmm. इति अपि च अन्यत् अन्यत् अपि अस्ति एवमेव वयम् अस्माकं पशुधर्मस्य पशुधर्मं त्यक्त्वा मानवधर्मस्य पालनमपि कर्तुं शक्नुमः एवं कुर्मः चेत् क्षणैः क्षणैः क्षणैः क्षणैः कालान्तरेण अस्माकं मानवधर्म धर्मे वयं प्रतिष्ठिताः भवामः hmm. इति अत्र उक्त्वा इदानीम् अस्माकं करपात्रं प्रति गच्छामः भग्निप्रश भवती उक्तवती इति तृतीयपक्ष अस्ति आत्मनिरीक्षणम् इति सार्वधानतया करणीयं किन्तु तस्य आदौ पक्षद्वयं किमस्ति इत्युक्ते इत्युक्ते तृतीयपक्षः इत्युक्ते तर्ड् पार्टि तर्ड् पार्टि रूपेण सोर्नेन प्रथमं नर्टिपक्षरूपेण इत्युक्ते स्पष्टीकरोमि यदि तत्र एकः साधकः अस्ति कृष्णः ैट् तर्हि कृष्णः स्वं कथं पश्येत् स्वं कथं पश्येत् इति चेत् तृतीय पक्षे पक्षरूपेण पश्येत् like a third party, he should look himself like a third party and he should inquire, Oh Mr. Mr. Krishna, uh, you are not being strict in इन् food, in taking टेकिङ्ग् food or और् यु आर् नाट् डूइङ्ग् आल् युर् साधन लेसन् आर् यू हेव् बिकम् वेरि स्लाक् इन् डूइङ्ग् द फालोइङ्ग् द नियमास् so when uh, like a third person when uh, some when somebody else is doing this atmanirikshana of krishna then krishna's eyes will be opened he, he his inner inner consciousness will be opened he'll say no i will not do this i will not uh, i will not take this coffee today i will not take this tea today it's not good for me it's not sattvic so then his eyes will open because sometimes what happens is that yada kshanika rupena atmakam आकर्षणं भवति खलु अन्ये जनाः कुर्वन्ति इति कृत्वा क्षणिकरूपेण आकर्षणं यदा भवति तदानीम् आत्मनिरीक्षणं यदा वयं कुर्मः तदानीं सम्यक् किम् अस्ति असमीचीनं किम् अस्ति इति वयं सम्यक्तया अवगन्तुं शक्नुमः तदानीं सङ्घर्षः भवति सङ्घर्षः भवति इत्युक्ते कदाचित् किं भवति इति चेत् विना एव वयं वा दृष्ट्वा वयं झटिति स्वीकुर्मः खलु सङ्घर्षः अपेक्षितः सर्वत्र सङ्घर्षः अपेक्षितः सङ्गर् सङ्घर्षार्थम् आत्मनिरीक्षणम् करणीयं स्पष्टमस्ति वा भगिनि अहं भगिनी स्पष्टमस्ति अहमिति विवेक् चूडामणि शङ्कराचार्यस्य पुस्तकमस्ति तत्र mm. इति सः लिखति आत्मनिरीक्षण एकनिमिषम् अपि यदि वयं विस्मरामः इति mm. अधोगति भवति तत्र इति सनकादिषः ऋषयः नारदम् उक्तवन्तः यदि mm. वयं विस्मरामः तद् गति किं तस्य गति किं भवति यथा कन्दुकम् उपरि सोपानसः पतति तत्र प्रथमसोपाने यदि वयं तत् गृह्य गृहामः साधु भवति ब्रह्म प्रति साधक ज्ञा जातः जात गच्छति किन्तु अधो यदि गतति गच्छति त गतिः वर्धते यथा कन्दुकं सोपानम् अधो गच्छति गति महती भवति तदनन्तरं तो इति mm. पुनः तस्य अधोभागस्य उपरि आ गन्तुं प्रयत्नं करोति साधक पुनः तत्सर्वम् mm. समीक्षा इति इति अस्ति इति कृत्वा सर्वदा आत्मनिरीक्षणं सर्वदा करणीयम् आत्मनिरीक्षणेन अस्माकं लाभः भवति अपि च विपरीतभावना अपि अस्माभिः mm -hmm. स्वीकरणीया इत्युक्ते अस्माकं ब्रह्म इति भावयामि इति सः प्रत्येकं श्लोकं लिखति ब्रह्म इति भावयामि इति साधक इति <laughs> विपरीतभावना भा, भावना अपि अपेक्षिता विपरीतभावना यदा भवति मनसि इदानीम् अहम् एतत् करोमि चायपानं करोमि इति मनसि तादृशी इच्छा आयाति तर्हि विपरीतभावना यदा वयं विपरीतभावनां स्वीकुर्मः तदानीं तत्र वयं मनसि यदायाति तद् न कुर्मः तस्मात् भिन्नं कुर्मः चेत् एवं रीत्या क्रमेण कृत्वा कृत्वा कृत्वा कृत्वा तादृशी आकाङ्क्षा एव न भवति अस्माकं तादृशी अभिलाषा अपि न भवति ओ मया एतत् करणीयं मया चायपानं पातव्यम् इति तादृशी आकाङ्क्षा न आयाति मनसि एतत्तु अभ्यासेन एव भवति एकस् एक एके एकस्मिन् दिने कदाचित् अधानेन किं सडन्लि तथा न भवति तस्य तत् तदर्थम् अस्माभिः क्षणैः शनैः शनैः अभ्यासः करणीयः आत्मनिरीक्षणं यदा कृत्वा कुर्मः निरन्तरं कुर्मः तदानीम् अस्माकं वर्धनम् अवश्यमेव भवति अस्तु इति उक्त्वा तर्हि इदानीम् अस्माकं करपत्रं प्रति गच्छामः अत्र मम स्क्रीन् दृश्यते वा न भगिनि नास्ति वा इदानीं दृश्यते वा मम दृश्यते ओके तर्हि हा हा एतत् एतस्मात् ओके तर्हि अत्र अस्माकं करपत्रस्य इत्युक्ते अस्माकं प्रवचनस्य विषयः कः इति चेत् अस्माभिः दृष्टं मानवधर्मः कः अनन्तेषा एव मानवधर्मः तदर्थम् अस्माभिः तत्र ब्रह्म कः इति ब्रह्म अस्ति इति अस्माभिः ज्ञातव्यम् अपि अस्माभिः दृष्टं तर्हि ब्रह्म अस्ति चेत् तर्हि ब्रह्म ब्रह्म अस्ति इति अस्माभिः ज्ञातव्यं तदर्थम् अस्माभिः दृष्टं तत्र मनुष्यः कथं कार्यं करोति मनुष्यस्य मनः वर्तते मनश् मनसः त्रयः अंशाः सन्ति तस्य मनसः मनसः अंशानां निर्माणं कथं भवति इति अपि अस्माभिः किञ्चित् दृष्टमासीत् तर्हि प्रथमतया तत्र यत्किमपि कार्यं वयं कुर्मः तस्य पृष्ठतः इन्द्रियाणि दश इन्द्रियाणि सन्ति एव तत्र मनः अपि यदा संलग्नं भवति तदानीमेव किञ्चित् कार्यं वयं कर्तुं शक्नुमः यद्यपि इन्द्रियाणि उद्युक्तानि कार्यं कर्तुं तथापि तैः कार्यं कर्तुं न शक्यते यावत्पर्यन्तं मनः तैः सह संलग्नः संलग्नं नास्ति तर्हि तत्र किमुक्तम् इति चेत् तत्र इदानीम् अहं पुस्तकं पश्यामि इति चेत् तत्र प्रत्यक्षं भवति इति चेत् अस्माभिः दृष्टं मनसः त्रयः भागाः सन्ति प्रथमतया महत्तत्त्वं यदा पुरुषस्य पुरुषस्य प्रकृत्या प्रकृत्या प्रभावः जायते पुरुषस्य उपरि पुरुषस्य प्रकृत्याः सत्त्वगुणस्य प्रभावः पुरुषस्य उपरि जायते चेत् तदानीं मनसः प्रथमः भागः आयाति महत्तत्त्वम् इति भागः तेन तत्र पुरुषस्य अहम् अस्मि इति भावः आयाति तावत्पर्यन्तं पुरुषस्य अहम् अस्मि इति भावः अपि तत्र शुद्धपुरुषः एव आसीत् तदनन्तरं तत्र प्रकृत्याः प्रभावेन अहम् अस्मि इति भावः आयाति तदेव महत्तत्त्वं तदनन्तरं यदा प्रकृत्याः रजोगुणस्य प्रभावः महत्तत्त्वस्य उपरि आयाति तदानीम् अहं कार्यं करोमि डूयर् ऐ इति तादृशरूपेण आयाति तदानीम् अहं तत्त्वेन कार्यं कर्तुं शक्यते तदर्थम् अग्रिमभागः अस्ति मनसः अग्रिमभागः चित्तं यदा प्रकृतेः तमोगुणस्य प्रभावः अहं तत्त्वस्य उपरि भवति तदानीं चित्तम् इति भागः निर्मितः भवति चित्तं तत्र बहिः यद्वस्तु यद अस्ति तस्य रूपं तस्य आकारं स्वीकरोति इदानीम् अहं पुस्तकं पश्यामि चेत् पुस्तके यद् रूपतन्मा तन्मात्रं वर्तते रूपतन्मात्रम् इत्युक्ते तादृश सूक्ष्मतमः पुस्तकात् पुस्तकात् तन्मात्र रूपतन्मात्ररूपेण आयाति तस्य ग्रहणम् इन्द्रियेण क्रियते यदा रूपतन्मात्रस्य ग्रहणम् इन्द्रियेण क्रियते तस्मात् इन्द्रियात् रूपतन्मात्रं चित्तं प्रति तर्हि चित्तं तद् तत् भवति पुस्तकस्य आकारं स्वीकरोति यदा चित्तं पुस्तकवत् पुस्तक पुस्तकवत् भवति तदानीम् अहं तत्त्वं पुस्तकं पश्यति एतादृशदर्शनकार्यं न भवितुमर्हति यावत्पर्यन्तम् अहम् अस्मि इति भावः नास्ति तत्तु महत्तत्त्वेन एव भवति तर्हि अस्माभिः एतत् दृष्टं यत् मनसः ये ये त्रयः भागाः सन्ति तेषामपि पृष्ठतः अन्य अन्या काचित् सत्ता वर्तते सा सत्ता एव जीवात्मा इति अस्माभिः उक्तं यावत्पर्यन्तं जीवात्मा नासीत् तावत् तावत्पर्यन्तं मनः अपि न भवितुम् अर्हति तर्हि एतत् सर्वं दृष्ट्वा अग्रे गत्वा दृष्टं यत् तत्र मनसः ये भागाः सन्ति ते स्वतन्त्र स्वतन्त्राः न सन्ति तेषां सर्वदा अपेक्षा वर्तते शुद्धपुरुषस्य अपेक्षा वर्तते शुद्धपुरुषः नास्ति चेत् तेषाम् उपस्थितिः न भवति अतः अत्र कार्यकारणभावं वयं पश्यामः चेत् तत्र शुद्धपुरुषः एव कारणम् अस्ति एतेषां मनसः भागानां पुरुषशुद्ध शुद्धपुरुषः नास्ति चेत् महत्तत्त्वं न भवति महत्तत्त्वं नास्ति चेत् अहं न भवति अहं नास्ति चेत् चित्तमपि न भवति अतः शुद्धपुरुषस्य अपेक्षा वर्तते परन्तु शुद्धपुरुषस्य कारणं किम् इति चेत् शुद्धपुरुषस्य कारणं किं किमपि नास्ति सः शुद्धपुरुषः तु कारणातीतः अस्ति तस्य कारणमेव नास्ति सः अनादि अनन्त अनन्तसत्ता इति अस्माभिः उक्तं तत्र शुद्धपुरुषः कथम् अहमस्मि इति भावं प्राप्नोति इति चेत् तत्र प्रकृतेः गुणः गुणेन प्रभावितः भवति इति उक्तं तर्हि तत्र प्रकृतिः इति अपि काचित् प्रकृतिः इत्यपि काचित् सत्ता वर्तते सा सत्ता अपि अनादि अनन्ता वर्तते तस्य सापि स्वतन्त्रा स्वतन्त्रा वर्तते तस्यापि अन्यस्य अपेक्षा नास्ति पुरुषः प्रकृतिः अनयोः गाढः सम्बन्धः वर्तते अनयोः अविनाभावसम्बन्धः वर्तते दे आर् लैक् दि uh, टु सैड्स् आफ् अ पेपर् कागदस्य uh, उपरि अधोभाग यथा तस्य पृथक्करणं न शक्यते तथा प्रकृतिः अपि च पुरुषः अनयोः गाढसम्बन्धः वर्तते तर्हि इदानीम् अस्माभिः दृष्टं यत् यत् तत् यावत्पर्यन्तम् अहमस्मि इति भावः नास्ति तावत्पर्यन्तम् अहं किमपि कार्यं न न कर्तुं शक्नोमि अपि च शुद्धपुरुषस्य एव कार्यात्मकरूपाणि एतानि एते त्रयः अंशाः अपि मनसः त्रयः अंशा अपि शुद्धपुरुषस्य कार्यात्मक इति अस्माभिः दृष्टं ततः पर्यन्तमेव प्राप्तम् इदानीं किञ्चित् अग्रे गच्छामः तत्र अन्तिमभागद्वयं परिच्छेदद्वयं वयं पश्यामः इदानीं किं करिता भगिनी पठितुमिच्छति वा आं भगिनि पठामि प्रत्येकं कर्म अस्तित्वं परिकल्पयति मम अस्तित्वस्य अभावे अहं द्रष्टुं न शक्नोमि अत्रापि दृश्यते यत् अहम् इतस् इत्यस्य द्वे भिन्ने कार्ये अथवा आलोकने स्तः प्रथमः अस्ति साक्षिसत्ता अथवा चैतन्यं तत् यत् स्वस्य अस्तित्वस्य निरूपणार्थम् अथवा अभिज्ञानार्थम् अहम् अस्मि इति भावं प्राप्नोति तदेव अहम् इदानीं दर्शनकार्यं करोति अहम् अस्मि इत्यस्य अहम् एव बुद्धितत्वम् अस्ति यत् अणुचैतन्यस्य अस्तित्वस्थापनकार्यम् अतिरिच्य कस्यचित् दर्शनसमये दर्शनकार्यं गृह्णाति यदा अणुचैतन्य प्रकृतया प्रभावितं तदा तत् स्वं बुद्धितत्वरूपेण प्रकटयति तद्वत् कर्मणि कर्तुम् अतिरिक्तं सामर्थ्यम् अपि बुद्धितत्वे प्रकृतेः एव भवति बुद्धितत्वे प्रकृतिः अपि उपस्थिता भवति यतोहि बुद्धितत्वं चैतन्यस्य एव प्रकटीकरणम् अस्ति यत्र कुत्रापि अणुचैतन्यं येन भवति तत्र सर्वत्र प्रकृत्या सह एव भवति प्रकृतेः सिद्धान्तः वा गुणः यस् बुद्धितत्वाय गुणं वा सामर्थ्यं ददाति स सा रजोगुणः इति उच्यते एवं बुद्धितत्वं यदा प्रकृतया प्रभावितं भवति तदा तत् द्विप्रकारकं कार्यं प्रदर्शयति यत् रजोगुणस्य प्रभावात् कर्म कर्तुं सामर्थ्यं गुणं वा प्राप्यते तत् तक अहं तत्त्वम् इति ज्ञायते अर्थात् यदा प्रकृतेः रजोगुणेन बुद्धितत्वं प्रभावितं भवति तदा तत् तक अहं तत्त्वरूपेण प्रकटयति Uh, एव सर्वस्य आधारं सर्वती यदा अणुचतन्य उपरी प्रकृते प्रभाव तत्व किंचितिप स्वीक यदि अहम कि दुा तदा अहं तत् सर्वप्रथमं साक्षीचैतन्यम् एव वर्तते सः साक्षीचैतन्यं किन्तु स्वयं किं किञ्चिदपि कर्तुं न शक्नोति तस्य उपरि यदा प्रकृतेः प्रभावं भवति तदा सः अणुचैतन्यम् एव बुद्धिमहत्तत्वं रूपं प्रकटय तदे सत्यगुण प्रभाव वर्त है इदानमदा रजो प्रकृते रजोगुण प्रभाव वर्त अणुत महत्व अहम तत्वेण तदा तमी कर सामर्थ्यं वर्तते इदानीं सः अहं तत्त्वम् इति रूपं स्वीकरोति अभवत् भगिनि न पश्यमाम् सम्यक् भगिनी सम्यक्तया उक्तवती तदेव सः एव विषयः अस्ति इत्युक्ते अत्र क्रमेण एका एव सत्ता कथं भिन्नभिन्नरूपं प्राप्नोति एका एव सत्ता भिन्नसत्ता नास्ति एका एव सत्ता तस्यैव प्रकटीकरणं भिन्नभिन्नरूपेण यथा तत्र तदर्थम् अस्माभिः उच्यते यता एका महिला वर्तते गृहे सा स्वस्य पुत्राणां कृते सा माता अस्ति गृहे माता अस्ति यदा सा बहिः गच्छति तदानीं सः वैद्यालये सः वैद्या अस्ति तर्हि वैद्यालये या महिला अस्ति सा भिन्ना अस्ति वा न सा सा सा एव महिला गृहे या महिला आसीत् सा एव महिला बहिः अपि अस्ति सा बहिः यदा आसीत् तदानीं भिन्नकार्यं स्वीकरोति इदानीं सा वैद्या अस्ति परन्तु यदा गृहे अस्ति सा सा स्वस्य पुत्राणां कृते सा माता अस्ति एवं शुद्धपुरुषः वर्तते शुद्धचैतन्यं वर्तते तस्य किमपि कार्यं नास्ति यथा भगिनी उक्तवती तस्य किञ्चिदपि कार्यं नास्ति स किमपि कर्तुं न शक्नोति सा सः सा, सः तु शुद्धपुरुषः अस्ति तस्य केवलम् अहम् इति एव अहं शुद्ध अहं तत्र किमपि भावः कोऽपि भावः नास्ति यदा तत्र प्रकृतेः सत्त्वगुणस्य प्रभावः भवति तदानीमेव अहम् अस्मि इति ज्ञानं भवति अहम् अस्मि इति ज्ञानं भवति तदेव तत्र महत्तत्त्वम् इति वदामः यदा पुनः यद्यपि अहम् अस्मि इति भावः अस्ति परन्तु सः तु किमपि कर्तुं न शक्नोति यतोहि यावत्पर्यन्तं प्रकृतेः रजोगुणस्य प्रभावः महत्तत्त्वस्य उपरि न भवति तावत्पर्यन्तं सः किमपि न कर्तुं शक्नोति यदा रजोगुणस्य प्रभावः भवति महत्तत्त्वस्य उपरि तदानीं सः तत्र मनसः द्वितीयः भागः आयाति येन पुरुषः किमपि कर्तुं शक्नोति कार्यं किमपि कर्तुं शक्नोति यथा पुस्तकस्य दर्शनं वा भवतु अथवा अन्यत् कार्यं लोके भवतु इदानीं शब्दस्य श्रवणं वा भवतु रसस्य आस्वादः भवतु यः यत्किञ्चित् भवतु नाम तर्हि तत्र कार्यं कर्तुं शक्नोति परन्तु कार्यस्य फलं न प्राप्तुं शक्नोति यावत्पर्यन्तं मनसः अन्यः भागः न आयाति यदा प्रकृतेः तमोगुणस्य प्रभावः अहं तत्त्वस्य उपरि भवति तदानीं पुरुषः साक्षात् पुस्तकं पश्यति चित्तस्य उपरि पुस्तकम् अहं तत्त्वं पुस्तकं, पुस्तकं पश्यति अतः चित्तम् इति अन्यः अपि भागः मनसः भागः अस्ति इति अवगन्तव्यम् अत्र एकः एव एकः एव पुरुषः तत्र प्रकृतेः प्रभावेन भिन्नभिन्न भिन्नभिन्नकार्यात्मकरूपं भिन्न, भिन्न, का प्राप्नोति इति अत्र विषयः स्पष्टः अस्ति वा अस्ति चेत् अग्रे गच्छामः अस्तु तर्हि सरलाभग्नि पठति वा इदानीं <coughs> भगिनि अन्ते प्रत्येकं कर्मणः फलम् अवश्यमी भवति उदाहरणत्वेन यदा पुस्तकं पश्यामः तदा दर्शनक्रियायाः फलम् अस्ति पुस्तकदर्शनम् इति पूर्वमेव पुस्तकस्य दर्शनकार्यं कथं भवति इति व्याख्यातं मनसः अंशः चित्तं पुस्तकस्य रूपोत्पादकं तन्मात्रं गृहीत्वा स्वयं पुस्तकस्य रूपधारणं करोति अहं तत्त्व तदेव पुस्तकं पश्यति अहं तत्त्वं यत् इच्छति तत् रूपं चित्तं गृह्णाति अहं तत्त्वं यथा चित्तं भवेत् इति इच्छति तत् इच्छानुसारं चित्तं रूपं गृह्णाति यदा अहं तत्त्वं पुस्तकं पश्यति तदा चित्तं तत् तद भवति यदा चित्तं शब्दं शृणोति तदा चित्तं शब्दः भवति अतः चित्तं रूपधारणार्थं सम्पूर्णतया अहं तत्त्व आधीनं भवति चित्तम् अहं तत्त्वस्य आज्ञानुसारं रूपं परिवर्तयत् एव भवति चित्तस्य अहम् तत्वेन सह अतीवगाढसम्बन्धः स्यात् तर्हि चित्तस्य उत्पत्तिः कथं जाता इति स्पष्टीकरणीयं यथोक्तं पूर्वं चित्तं मनसः एकः अंशः अस्ति बुद्धितत्वम् अहं अपरव च अपरौ द्वौ भागौ स्तः बुद्धितत्वम् अहं तत्त्वं च अणुचैतनस्य एव प्रकटीकरणम् अस्ति भावात् अणुचैतन्यं महत्त अभिवक्तं भवति प्रकृतेः च रजोगुणप्रभावात् महत्तत्त्वम् अहं तत्त्वरूपेण अभिव्यक्तं भवति अथा द्वितीयस्तरे अणुचैतन्यं प्रकृतेः प्रभावात् अहं तत्त्वरूपेण कार्यं स्वीकरोति अतः अहं तत्त्वे उपस्थितिः अस्ति सा अवश्यमी अहं तत्त्वम् गुणान्वितं करोति वस्तुतः अहं तत्त्वस्य उपरि प्रकृतेः प्रभावात् एव चित्तस्य प्रकटीकरणं भवति प्रकृतेः गुणः यः अहं तत्त्वं करोति सः गुणः तमोगुणः इति उच्यते तमोगुणप्रभावात् अहं तत्त्वम् अथवा अहं यत् कार्यं करोति तत् स्वस्य फलस्य मानसिकरूपं गृह्णाति यदा अहं पुस्तकं पश्यति तदा अहम् एव पुस्तकवत् भवति इति भावः अन्यत् अहं तमोगुणस्य प्रभावेन आविभर् आविभर् आविरभवति आविर्भवति इदम् एव अहं प्रत्यक्षकाले पुस्तकस्य मानसिकरूपं गृह्णाति इदम् अहं यत् पुस्तकसदृशं भवति अथवा पुस्तकरूपं गृह्णाति तत् चित्तमस्ति एवम् अनुचैतन्यस्य एव क्रमेण चित्तरूपाणि रूपेण प्रकटयति अस्मिन् परिच्छेदे वयम् इति पश्यामः कथं प्रकृतेः प्रभावः भवति ततोगुण रजोगुण तमोगुण इति प्रत्येकं गुणम् आधारीकृत्य कथं पुरुषः यदि सन्नग् सल्लग्नम् सन सन सन अस्ति प्रकृतेः सन्नग्नम् अस्ति ततः कार्यरूपेण पुरुषस्य प्रवर्त परिवर्णते कथं महत् सत्त्वगुणस्य इति प्रभावेण महत्तस्य महत्तत्वम् पुरुषस्य परि रमते तत् वयं अस्ति भावः अस्ति अहम् अस्मि इति भावः तत् वयं साक्षीभावः अपि वदामः तदनन्तरं यदि रजोगुणस्य प्रभावेण किं भवति आगच्छति प्रभावेण आगच्छति अहं करोमि इति अहङ्कारं वयं वदामः द्वितीय पक्ष कार्यरूपेण पुरुषस्य तृतीयमस्ति चित्तं तत् यत् विषय भवति मनस् मनसि तदानीम् एव अहं करोमि अहं पश्यामि इति अहङ्कारे आगच्छति तत् यदि चित्तस्य विषय भवति तदस्ति तमोगुणस्य प्रभावः इति अस्ति uh, uh, uh, त्रयगुणः त्रयगुणाः कथं uh, पुर, uh, पुरुषस्य यत् uh, निर्गुणं शुद्धं uh, तत् अस्ति तस्य uh, परिवर्तनं भवति uh, प्र प्रभाव प्रभावेन सो यदा उदाहरणमस्ति पुस्तकम् इति uh, पुस्तकं पश्यामि इति अहं तत् अहङ्कार अहं तत् सम्यक् अस्ति तत् इच्छति अहं पुस्तकं द्रष्टुम् इच्छामि तदानीं किं भवति यदि पुस्तकम् अस्ति तस्य विषयः अस्ति रूपेन्द्रिय चक्षुः अस्ति तत् पु, पुस्तकस्य पार्श्वे ये तन्मात्रा सन्ति तद् गृहीत्वा रूपेन्द्रिय चक्षु इति मनसा मनसि गत्वा तत्र आकारित भवति तद् पुस्तकस्य विषयरूप आकारित यदि मनसि आगच्छति तत् तमोगुणस्य प्रभावेण अस्ति प्रकृ यदि मनसि आकारित आगच्छति तदानीम् अहं तत्त्व रजोगुणस्य प्रभावेण वदति अहं पश्यामि रूपं पश्यामिति न केवलं रूप सर्वे विषया यत् अस्ति इन्द्रियाणि तेषां यथा चक्षुषा रूप करणैः इति भवति श्रवणं गन्ध इति जुवया गन्ध नासिकयाः नासिकया गन्धजुवया रथ अपि त्वचा इति स्पर्शं ते सर्वे यथा स्पर्शवत् वा रूपवत् वा श्रुणवत् शृणवत् शृणवत् इति वा त्वचवत् इति रूपा शब्दवत् आमां शब्दवत् शब्दवत् रसवत् तत् त्वच् त्वत् त्वत् नो त्वच्वत् त्वच्व इति यदि गन्धवत् इति भवति तदानीमेव अहं कार जोगुणेन अहम् अस्मि इति आगच्छति तद् अहं पश्यामि शृणोमि स्पष्टुं कर्तुं स्पश् स्पश्यामि अहं स्पश्यामि इति आगच्छति अहं गृह्णामि अहं स्वादिष्ट स्वादम् अनुभवामि इति आगच्छति अहङ्कारस्य तत्वे इति अस्ति तो इति अत्र दत्तमस्ति कथं पुरुषस्य कार्यरूपेण प्रभाव प्रकृत्याः प्रभावेण गुण अनुगुणं भवति हा सम्यक् भगिनी बहु सम्यक्तया उक्त उक्तवती सर्वेषाम् अस्य विषये विचारः सम्यक्तया मनसि अस्ति इति मन्ये अतः अग्रे गन्तुं शक्नुमः केवलम् अत्र किं वक्तुमिच्छामि इति चेत् तत्र अहं तत्र मनसः त्रयः अंशाः सन्ति इति वयं जानीमः अहं तत्त्वस्य यावत्पर्यन्तम् आदेशः नास्ति तावत्पर्यन्तं चित्तं किमपि न करोति तर्हि चित्तं चित्तस्य रूपधारणा रूपधारणा तत्र परिवर्तते यतोहि तत्र अहं तत्त्वं यदिच्छति इदानीम् एकस्मिन् क्षणे अहं तत्त्वं पुस्तकं द्रष्टुम् इच्छ इच्छति तदानीं चित्तं पुस्तकवद्भवति इदानीम् अग्रिमक्षणे चित्तं लेखनीवद् भवितुम् इच्छति चेत् तत्र न अहं तत्त्वं लेखनी तत्र अहं तत्त्वं लेखनीं द्रष्टुमिच्छति चेत् चित्तं लेखनीवद्भवति इदानीम् अहं तत्त्वं आम्रस्य स्वादं कर्तुम् इच्छति चेत् तदानीं चित्तम् आम्रवद्भवति रसवद्भवति इति कृत्वा तत्र चित्तं झटिति झटिति झटिति तत्र तस्य आकारः परिवर्तते यथा तत्र अहं तत्त्वम् इच्छति तदनुगुणम् अतः वयं द्रष्टुं शक्नुमः तत्र चित्तं तत् चित्तं तु तुम्त अहं तत्त्वस्य अधीनम् अस्ति यावत्पर्यन्तम् अहं तत्त्वात् आदेशः न भवति तदानीं चित्तं किमपि कर्तुं न शक्यते अपि च वयं क्रमेण द्रष्टुं शक्नुमः एकः एव आत्मा एकः एव आत्मा तदेव इदानीं भिन्नभिन्नभिन्नरूपेण परिवर्तते एका एव सत्ता तर्हि मनः अपि आत्मा एव अस्ति इदानीम् अग्रे गत्वा वयं पश्यामः बहिः यद्वस्तु अस्ति पुस्तकं तदपि तदपि आत्मा एव तदपि ब्रह्म एव तत् कथम् इति वयं पश्यामः तर्हि वयम् अन्ततो गत्वा वयं पश्यामः जगति यत्किमपि आसीत् सर्वं ब्रह्म एव ब्रह्म विहाय किमपि नास्ति तर्हि शुद्धपुरुषः अस्ति शुद्धपुरुषः एव मनः जातः शुद्धपुरुषः एव बाह्ये यद्वस्तु अस्ति तदपि जा शुद्धपुरुषः एव जातः तर्हि अगतो गत्वा किम् अस्ति अस्मिन् जगति इति चेत् पुरुषं विहाय किमपि नास्ति पुरुषं विना विहाय किमपि नास्ति इत्युक्ते सर्वं यत् यत् किमपि अस्ति जगति सर्वं पुरुषाधीनम् अस्ति पुरुषं विहाय किमपि किमपि नास्ति अस्मिन् जगति इति वयं अवगन्तुं शक्नुमः अपि तत्र चित्तम् अहं तत्त्वं बहु बहु गाढतया कार्यं द्वयमपि कार्यं करोति इत्युक्ते तया तयोः तादृशसम्बन्धः अस्ति निकटतया निकट निकटः सम्बन्धः अस्ति यावत्पर्यन्तं तत्र अहं तत्त्व निर्देशः न भवति तावत्पर्यन्तं चित्तं किमपि न करोति यदा निर्देशः भवति तदानीं झटिति चित्तं इन्द्रियेण तत्र चित्तं संलग्नं भवति तदानीम् इन्द्रियः इन्द्रियं तु अर्थेन सह संलग्नं भवति तर्हि अर्थात् अर्थमित्युक्ते बाह्यवस्तु बाह्यवस्तुतः तत्र तन्मात्राणां ग्रहणं भवति तत्पश्चात् अस्माकं प्रत्यक्षं भवति चित्तं बाह्यवस्तुवत् भवति इति तत्र प्रत्यक्षस्य क्रमः अस्ति अस्तु तर्हि इति अय् अयं विषयः इदानीं किञ्चित् अग्रे गच्छामः किं प्रियाभगिनी पठितुमिच्छति वा भगिनि पूर्वपरिच्छे पूर्वपरिच्छेदेषु तर्केण युक्त्वा च साधितं यत् प्रकृतेः विभिन्नैः पूर्वपरिच्छेदेषु तर्केण युक्त्या च साधितं यत् प्रकृतेः विभिन्नैः गुणैः प्रभाविते, यु� <to> प्रभाविते सति क्रमेण महा महत्तत्वम् अहन्तत्वं च चित्तम् इत्येतैः रूपैः आत्मा एव स्वं प्रकटयति अस्य फलस्वरूपेण मनसः सृष्टिः भवति अनुचैतन्यस्य अस्तित्वम् मनसः कृते आ अत्यावश्यकम् अस्ति यतोहि अनुचैतन्यस्य उपरि प्रकृतेः प्रभावेणैव क्रमेण मनसः प्रकटीकरणम् भवति वस्तुतः आत्मनः अथवा अनुचैतन्यस्य अनुपस्थितौ मनसः मनसः सृष्टिः न सृष्टिः न सम्भवति परन्तु वयं जानीमः यत् मनः उपस्थितम् अस्ति प्रत्येकस्मिन् मनुष्ये अतः आत्मा अथवा अनुचैतन्यम् अपि प्रत्येकस्मिन् मनुष्ये अवश्यं हि उपस्थितम् अस्ति अस्मिन् जगति असङ्ख्यकाः व्यक् व्यक्तयः सन्ति प्रत्येकस्य व्यक्तौ आत्मनः अनुचैतन्यस्य वा प्रतिबिम्बः भवति अतः एवं दृश्यते यत् बहवः आत्मानः अथवा बहूनि अणुचैतन्यानि सन्ति इति येषाम् आत्मानां सा, सामूहिकानाम् एव परमात्मा भूमाचैतन्यम् अथवा सामूहिक सामूहिकनाम सामूहिकम् एष येषाम् आत्मानां सामूहिका सामूहिकनाम एव परमात्मा भूमा भूमाचैतन्यम् अथवा भगवान इति यदा द्वादशानाम् समूहः द्वादशकम् विंशतेः समूह विंशत्यकम् च बहुसङ्ख्या बहुसङ्ख्या सङ्ख्यकानाम् सेनानाम् समूहः सेनादलम् इत्युच्यते तथैव अणुचैतन्यानाम् सामूहिकनाम परमात्मा भूमाचैतन्यम् भगवान् अथवा ब्रह्म इत्यस्ति भगवान् इति नाम्ना कश्चन शक... क... कश्चन शक्तिशाली मनुष्यः यस्य शक्तिशालिनौ हस्तपादौ सः इति न मन्तव्यम् यद्यपि आङ्ग्लभाषायाम् आत्माशब्दस्य पर्यायवाची शब्दः नास्ति तथापि व्यवहार्थम् तस्य समीपस्थः शब्दः सोल् इति स्वीकर्तुम् शक्यते अतः भूमाचैतन्यम् अथवा यूनिवर्सल् सोल् इत्यपि भगवन्तम् आह्वयितुम् शक्यते अनेन ज्ञायते यत् भगवान् अस्ति अपि च सः परमात्मा भूमाचैतन्यम् ब्रह्म वा आनन्दस्वरूपः इति रूपेण अस्ति इति सो तत्र <coughs> सो तत्र किं लिखितमस्ति चेत् वयम् तर्केण परिचय पूर्वस्मिन् परिचयते वयं ज्ञातवन्तः भगवान् विभिन्नैः गुणैः सर्वे सर्वस्मिन् अस्ति सो मनुष्यी य किमपि जन्तु तस्मिन् अन्ते परमात्मा स्वरूपं नास्ति चेत् तत् जीवितम् एव न भवति अतः ये जीवितं अतः परमात्मस्वरूपम् आत्मा सर्वस् सर्वस्मिन् अस्ति तस्य एकसामूहिकनाम इत्युक्ते दशम् अस्ति चेत् दशात्मकं शतम् अस्ति चेत् शतात्मकम् इति वयं तत् आहूतवन्तः तत् तथैव तथैव परमात्मा बहवः परमात्मा पर परमात्मनः परमात्मा आत्मानं समूहस्य नाम परमात्मा अस्ति भूमाचैतन्यम् अस्ति अथवा भगवान् इति नाम अस्ति आङ्ग्लभाषायां तस्य आत्मा नाम सोल् अस्ति किन्तु समूह सामूहिक नाम अस्ति समूहस्य नाम अस्ति यूनिवर्सल् सोल् इति तथैव तद् यूनिवर्सल् सोल् अन्यत् नाम अस्ति भूमचैतन्यं परमात्मा ब्रह्मा आनन्दस्वरूपः इति भूमचैतन्यरूपेण रूपेण अस्ति सम्यक् भगिनी सम्यक् समीचीनतया उक्तवती इत्युक्ते तत्र अत्र अस्मिन् इत्युक्ते क अस्मिन् अस्मिन् करपत्रे तत्र भागद्वयं वर्तते प्रथमभागे मनुष्यस्य विषये तत्र चर्चितमस्ति मनुष्यः कः मनुष्यः पशुतः कथं विद्यते अस्माकं धर्मः कः तर्हि तद् मनुष्यस्य धर्मः कः मनुष्यः कथं विशिष्टः वर्तते अन्येभ्यः जीवेभ्यः एतत् सर्वम् अस्माभिः दृश्य तत्र दृष्टमासीत् तर्हि अत्र अन्ततो गत्वा तत्र दृष्टं मनुष्यस्य धर्मः अनन्तस्य अन्वेषणम् एव मनुष्यस्य धर्मः इति अपि अस्माभिः दृष्टं तर्हि तर्हि तद् तदानीं प्रश्नः आयाति अनन्तः कः तर्हि मानवस्य धर्मः अनन्तेषण तर्हि अनन्तः कः इति तस्मिन् सन्दर्भे अस्माभिः मनसः विषये दृष्टवन्तः तत्र मनस् मनः तु केवलं सीमित सीमायुक्तानि वस्तूनि एव कल्पयितुं शक्नोति अनन्तं तु अनन् यः अस्ति सः मनसः प्रत्यक्षग्रहणात् अपि तत्र प्रत्यक्षग्रहणात् परमस्ति इन्द्रियैः तत्र अनन्तस्य ज्ञानं न भवितुम् अर्हति अतः तत्सर्वं वयं दृष्टवन्तः तर्हि इत्युक्ते अत्र धर्माः भिन्नाः जन जनाः किं चिन्तयन्ति इति चेत् धर्माः भिन्नाः भवन्ति मताः भिन्नाः भवन्ति परन्तु तत्सर्वं तथा नास्ति अस्माकं सर्वेषां मनुष्याणाम् एकः एव धर्मः अस्ति सः धर्मः सर्वेषां समानः धर्मः अस्ति इत्युक्ते तत्र लोके तथा तथा किमपि उच्यन्ते यत् लोके जनाः जनैः उच्यन्ते यत् मम धर्मः भिन्नः भवतः धर्मः भिन्नः तथा नास्ति अस्माकं सर्वेषां धर्मः एकः एव अस्माकं नेत्रं यदा उद्घाटितः उद्घाटितं भवति तदानीं वयं ज्ञातुं शक्नुमः अस्माकं लक्ष्यं किम् मानवस्य लक्ष्यम् अन्ति अन्ततो तस्य लक्ष्यं किम् अस्ति इति ज्ञातुं शक्नुमः मानवजीवनस्य लक्ष्यं किमपि भौतिकं न भवितुमर्हति तत्र इति अपि च अत्र अत्र किमुक्तम् इति चेत् सर्वेषु मनुष्येषु मनः अवश्यमस्ति अपि च तत्र तत्र आत्मा अपि अस्ति अणुचैतन्यमपि अस्ति सर्वेषु मनुष्येषु अत्र उक्तमस्ति यत् सर्वेषाम् अणुचैतन्यानां मिलित्वा परमात्मा इति वयं वदामः वदामः इति परन्तु अत्र वस्तुतः परमात्मा तु तस् ततोपि अधिकः अस्ति न केवलं केवलम् अनुचैतन्यानां सामूहिकनाम परमात्मा इति नास्ति परन्तु परमात्मा तु ततोपि अधिकः अस्ति तत्र सम्पूर्णनिर्गुणपुरुषं वयं पश्यामः चेत् तत्र निर्गुणपुरुषः ततोपि अधिकः अस्ति तत्र सगुणब्रह्म इति तु एकः एव भागः अस्ति तत्र सगुणब्रह्म निर्गुणब्रह्म इति तस्य विषये अग्रे वयं पश्यामः परन्तु अत्र स्पष्टीकर्तुम् इच्छामि इति चेत् केवलं अनुचैतन्यानां जीवात्मानां सामूहिकनाम परमात्मा इति नास्ति परमात्मा ततोपि अधिकः अस्ति तर्हि तदपि अत्र तत्र वक्तुम् इच्छामि तर्हि सर्वस्य आधारः अस्माकं सर्वेषाम् आधारः कः इति चेत् अनुचैतन्यम् एव अस्माकं सर्वेषाम् आधारः अस्ति अतः सर्वत्र ब्रह्म सर्वत्र अनुचैतन्यं सर्वत्र ब्रह्म एव अस्ति चेत् तर्हि किमर्थं ब्रह्म अस्माकं लक्ष्यं न भवेत् अवश्यमेव अस्माकं लक्ष्यं ब्रह्म एव अवश्यं भवेत् तर्हि अत्र वयम् अपि च वयं द्रष्टुं शक्नुमः तत्र एकः एकः एव पुरुषः शुद्धपुरुषः स एव भिन्नभिन्नभिन्नरूपेण कार्यात्मकरूपाणि स एव पुरुषः स्वीकरोति इति अपि अस्माभिः दृष्टं तर्हि यदा आत्मा यदा आत्मनि गुणाः न सन्ति तदानीं सः शुद्धपुरुषः निर्गुणः अस्ति निर्गुणपुरुषः अस्ति यदा पुरुषः गुणेन प्रवा प्रभावितः भवति तदानीं सः सगुणः भवति सगुणपुरुषः भवति गुणेन सहितः भवति यदा गुणेन सहितः भवति तदानीं तत्र सृष्टिः आयाति इति एतत् सर्वं वयम् अग्रिमकरपत्रे वयं पश्यामः इति अत्र अन्ततो गत्वा तदेव अत्र अस्मिन् अन्तिमपरिच्छेदे अत्र उक्तमस्ति तत्र भूमाचैतन्य अणुचैतन्यम् इत्युक्ते यद्यपि सोल् इति वयं वदामः परन्तु साक्षात् तत् पर्यायशब्दः नास्ति समीपवर्तिशब्दः अस्ति साक्षात् पर्यायशब्दः नास्ति परन्तु लोके सोल् इति व्यवहारः दृश्यते तर्हि अत्र तावदेव अत्र अत्र कोपि प्रश्नः अस्ति वा भगिनी एकः एकः एक एक प्रश्नः अस्ति मम इदानीं वयं जानीमः बाह्यवस्तूनां ग्रहणं कथं भवति किन्तु ये मनसि विचाराः आगच्छन्ति तेषां ग्रहणं कथं भवति समानं प्रक्रिया भवति वा किञ्चित् भवति वा इति इत्युक्ते मनसि इच्छा कथं भवति इति वा न मनसि ये विचाराः आगच्छन्ति तेषां वयं जानीमः ीमः इत्युक्ते प्रक्रिया समानप्रक्रिया एव इत्युक्ते मनसि यः कोऽपि विचारः आयाति इदानीम् अहं पुस्तकं पश्यामि इति यः विचारः आयाति सः विचारः तु अहं तत्वे एव आयाति खलु इदानीम् अहं अहम् अन्यत्र गच्छामि इति यः विचारः आयाति तत्तु अहं तत्वे एव आयाति इदानीम् अहं भोजनं करोमि इति विचारः अहं तत्वे एव आयाति चित्तेन तद्वत् रूपं गृह्णाति तदर्थं वयं कार्यं कर्तुम् अस्माकम् इन्द्रियाणां प्रयोगं कुर्मः यदा अहं तत्वम् इच्छति तदानीम् अस्माकं कार्यम् अग्रगतिः भवति तर्हि यः कोऽपि विचारः अहं तत्वे एव अहं तत्वे यः कोऽपि विचारः भवतु नाम यदा बाह्यवस्तु एव नास्ति अस्माकं मनसि एव अन्तः अन्त अन्तःकरणे एव यदा यः कोऽपि विचारः आयाति इत्युक्ते बाह्य अहं किमपि न करोमि मनसि एव अहं चिन्तया चिन्तयामि इदानीम् दिल्लीनगरं प्रति गच्छामि इति मनसि चिन्तयामि चेत् तदानीं तदानीं तत्र अस्माकं अन्ते एव मन मनसः अन्ते एव तादृशविचारः आयाति मनसि एव वयं चिन्तयामः मनः द्वारा वयं दिल्लीनगरं प्रति गच्छामः तर्हि बाह्यवस्तु किमपि नास्ति तत्तु अस्माकं कल्पना भवति तदानीम् इमेजिनेशन् भवति परन्तु बाह्यवस्तुना सह अपि सम्बन्धः भवितुमर्हति तदर्थं यथा इदानीं प्रदर्शितं प्रक्रिया तथा भवति परन्तु अन्ततो गत्वा भवत्याः प्रश्नस्य उत्तरं किम् इति चेत् मनसि यः कोऽपि विचारः आयाति तत्तु अहं तत्त्वेन एव आयाति अहं तत्वे एव तत्पश्चात् कार्यार्थम् इन्द्रियाणां सहायं भवति चित्तस्य सहायं भवति तत्सर्वं भवति प्रश्नस्य उत्तरं कृतं वा उदाहरणार्थम् अहम् इदानीं दुःखितो अस्मि तस् तस्य ग्रहणं कथं भवति इदानीं अहं सुखी अहं दुःखी एतदेव विचारं मनसि मनसि भवति सुखं दुःखं सर्वस्य अनुभवः मनसि एव भवति सुखं दुःखं सर्वस्य अनुभवः मनसि एव भवति तत्र यः कोऽपि भावना यत्किमपि भवतु नाम सर्वं मनसि एव भवति यः कोऽपि अनुभवः भवतु जीवने इदानीं पुस्तकम् अहं पश्यामि पुस्तकं दृष्ट्वा मम मनसि आनन्दः जातः चेत् सुखं जातं चेत् तत्तु मनसि एव भवति खलु इदानीम् अहं किमपि खादामि तेन अहं सन्तुष्टा तदानीं तादृशसन्तोषः अपि मनसि भवति अतः यः विचारः भवतु नाम तत्तु मनसि एव भवति परन्तु तस्य पृष्टतः मातत्त्वं वर्तते तस्य पृष्ठतः जीवात्मा अपि वर्तते साक्षीसत्तारूपेण वर्तते जीवात्मा तु न, न कर्ता न भोक्ता न कर्ता न भोक्ता तस्य भोगः अपि नास्ति तस्य कार्यं किमपि नास्ति स एव केवलं साक्षीरूपेण तिष्ठति सर्वं मनः द्वारा एव क्रियते सुखं दुःखं सर्वं मनः द्वारा एव भवति तर्हि इदानीं क्ष सुक, क्षणिकरूपेण सुख सुखं जातं चेत् तदपि मनसि एव क्षणिकक्षणिकरूपेण दुःखं जातं चेत् तदपि मनसि एव इदानीं किमपि मया श्रुतं तेन मम मनसि दुःखं जातं तत्तु मनसि एव जायते तत् चित्तं तद्वद् भवति तदा चित्तं तद्वद् भवति तदानीम् अहं तत्त्वं दुःखम् अनुभवति अर्थात् मनः एव दुःख सुखरूपम् आकारं स्वीकरोति तदा अहं दुखी सुखी इति ग्रहणं भवति आम् तत्र आत्मनः तत्र किमपि नास्ति आत्मा साक्षिरूपेण भवति आत्मनः सुखं दुःखं किमपि नास्ति अस्तु अस्तु तर्हि अस्तु तर्हि इदानीं तत्र किञ्चित् तत्र द्वितीयकरपत्रम् एकवारं पश्यामः तत्र विजयाभगिनी अपि किञ्चित् पठतुम् विजयभङ्गिनी पठति वा दृश्यते वा आम् आम् ब्रह्म वर्तते अपि च तत् ब्रह्म स्पष्टीरूप करपत्रं ब्रह्म किम् अस्ति वाट् इस् दि कास्मिक् ए ब्रह्म ब्रह्म किम् अस्ति ब्रह्म वर्तते अपि च तत् ब्रह्मस्पष्टिरूपेण परमात्मा, परमात्मा भूमा समष्टि समष्टिरूपेण हा समष्टिरूपेण हा समेत महोदय समस्तिरूपेण परमात्मा भूमाचैतन्यं समष्टिचैतन्यं वा चैतन्यम् इति निरूपितम् एतदेव वदामि वा महोदय अग्रे भूमाचैतन्यं वा समस्यचैतन्यं वा चैतन्यं वा समष्टिरूपेण स्थितिशक्तिः वा पुरुषः इत्यपि ज्ञायते ज्ञाये ज्ञायते पूर्वमेव व्याख्यातम् आसीत् यत् प्रकृतिः पुरुषस्य चैतन्यस्य तत्त्वम् अपूर्वा शक्तिः बलं बलं वा अस्ति इति अपि च सा पुरुषं गुणान्वितं करोति प्रकृतिः पुरुषस्य तत्त्वमस्ति पुरुषः प्रकृतिः च यद्यपि द्वे पृथक् तत्ते स्तः तदापि अपि परस्परं सम्यक्तया सम्बुद्धेः इति कृत्वा सम्बद्धे इति कृत्वा द्वयोः पृथक्करणं कदापि न सम्भवति यथा अग्निशीच्च तस्य दाहसशक्तिः इति अनयोः पृथक्करणम् आ अशक्यं तदैव प्रकृतिपुरुषयोः पृथक्करणम् अपि अशक्यं प्रकृतिः अपूर्वाशक्तिः अस्ति सा पुरुषं गुणायुक्तं गुणयुक्तं करोति यत् तत्त्वं वा शक्तिः वा कस्मैश्चित् वस्तूनि लक्षणं वा गुणं वा ददाति तद् तत्वं तस्मात् नाम तस्मात् तस्मात पृथक्करणं ना शक्यते तदैव पुरुषः प्रकृतिः च द्वे पृथक् शक्तेः तयोः विच्छेदः कदापि न शक्यते अतः यत्र यत्र प्रकृतिः अस्ति तत्र तत्र पुरुषः अवश्यं भवेत् तेषां सामूहिकर सामूहिकरूपेण ब्रह्म इति नामकरणं भवति इति hmm. इदानीमेव अत्र सर्वेण्ट् गतवती महोदय अतः एव वयं विलिम्बेन जातम् अहं गमिष्यामि महोदय गन्तव्यं इदानीं गन्तव्यं महोदय धन्यवादः महोदय तर्हि तर्हि किं किं सरिता भगिनी वदति वा किं पठितमिति आं भगिनि अत्र वयं जानीमः समस्त अणुचैतन्यं मिलित्वा परमात्मा भूमचैतन्यं समष्टिचैतन्यम् इति उच्यते तस्य अस्ति वा भगिनि चरिता भगिनि न श्रूयते क्षम्यतां भगिनि मम कनेक्षन्तु सो so, वयं जानीमः समस्त अणुचैतन्यं मिलित्वा उमाचैतन्यं समष्टिचैतन्यं परमात्मा अपि वक्तुं शक्यते इदानीं प्रकृति यहाकृति आसी अस्त सहुष्व शक्ति अस्थ यहाँ दहनशक्ति अस्त पृथकर्ण न शक्य अग्नि दहन शक्ति मध्ये कॉपी पृथकर्ण न संभव तथा प्र प्रकृति पुर मध्ये विचेद कदा न संभव प्रकृते पुरुषः तु निर्गुणः रूपेण स्थितिः अस्ति प्रकृतिः एव तं गुणान्वितं करोति प्रकृतिः तु अपूर्वशक्तिः अस्ति सः एव पुरुषं भिन्नभिन्नरूपेण प्रकटीकरणं करोति गुणान्वितं करोति तेषां कदापि विच्छेदं न, न सम्भवति यत्र यत्र प्रकृतिः वर्तते तत्र तत्र पुरुषः तु अवश्यम् एव अस्ति इति वयं जानीमः तस्य पुरुषः प्रकृतेः मिलित्वा ब्रह्म इति व्यवहारः वर्तते सम्यक् भगिनि इत्युक्ते अत्र इदानीमेव प्रथमकरपत्रं समापितमिति इति कृत्वा वयं जानीमः यत् तत्र प्रकृतेः प्रभावः यदा भवति पुरुषस्य उपरि तदानीं तत्र मनसः निर्माणं भवति इति वयं जानीमः प्रकृतेः त्रयः गुणाः सत्त्वगुणः रजोगुणः तमोगुणः इति क्रमेण पुरुषं प्रभावयति पुरुषस्य उपरि प्रभावं जनयति तेन मनसः अस्तित्वं कथं भवति इति वयं चर्चां कृतवन्तः तर्हि अत्र किम् उक्तम् इति चेत् तत्र वस्तुतः वस्तुतः मौलिकद्रव्यं यस्मात् अन्ततः सर्वं निर्मितम् अस्ति तत्तु अस्ति पुरुषः पुरुषः एव मौलिकवस् मौलिकवस्तु यस्मात् सर्वं सर्वमपि निर्मितं भवति तत् कथं निर्मितम् इति चेत् यदा पुरुषः गुणान्वितः भवति प्रकृत्या यदा गुणान्वितः भवति यदा प्रकृतिः स्वप्रभावं जनयति पुरुषस्य उपरि तदानीं सृष्टिः जायते सृष्टिः कथं जायते इति अग्रे वयं पश्यामः यः पुरुषः गुणरहितः अस्ति सः तु निर्गुणः पुरुषः सः निर्गुणपुरुषः समुद्रः इव अस्ति इत्युक्ते वयं वयं समुद्रं समुद्रं समुद्रस्य जलं पुरुषमिति वयं चिन्तयामः चेत् तत्र आ, तत्र यदा यदा इत्युक्ते समुद्रः समुद्र समुद्रं वर्तते समुद्रस्य जलं पुरुषः इति वयं चिन्तयामः अपि यदा प्रकृतेः प्रभावः यदा भवति पुरुषस्य उपरि तदानीं तत्र सगुणब्रह्म आयाति तत्र पुरुषप्रकृतिद्वयोः मेलनं कृत्वा तत्र सगुणब्रह्म आयाति प्रकृतिपुरुषः द्वयं द्वयोः पृथक्करणं कदापि न शक्यते यत्र कुत्रापि पुरुषः वर्तते तत्र प्रकृतिः तु अवश्यम् अस्ति द्वयोः सर्वदा युनो देर् लै सैज़् आफ़् अ कायिन् तत्र नाणकस्य उपरि अधोभागः यथा भवति तथा तत्र पुरुषप्रकृतिः अनयोः सम्बन्धः अतः एव वयं वदामः शिवस ब्रह्म ब्रह्म इत्युक्ते किं शिवशक्त्यात्मकं ब्रह्म अपि च सा शक्तिः शिवस्य शक्तिः शक्तिः शिवस्य शक्तिः तयोः पृथक्करणं न शक्यते द्वयोः मिलित्वा ब्रह्म इति नामकरणं पुरुषः प्रकृतिः द्वयोः मिलित्वा ब्रह्म इति नामकरणं द्वयोः सत्ता द्वयम् अपि अनादि अनन्त सत्ता अनादि अनन्तसत्ता द्वयोः तयोः अपि कार्यकारणभावः नास्ति तयोः कार्यकारणभावः नास्ति तर्हि तदेव अत्र अत्र लिखितमस्ति अनयोः प्रकृतिपुरुषयोः पृथक्करणं कदापि न शक्यते इति अत्र लिखितमस्ति एतावता यद् दृष्टं तत्र कोऽपि संशयः अस्ति वा भगिनी यथा अग्नि सर्वत्र वर् वर्तते तस्य दहनशक्तिः अपि सदा वर्तते आ, किन्तु यदा कोपि वस्तु तस्य सम्पर्के आगच्छति तदा एव तस्य दहनशक्त्याकरणं भवति स वस्तु दग्धं भवति तथैव प्रकृतिः पुरुषः सदैव वर्तते किन्तु mm. तत् षष्टिनिर्माणं कथं सम्भवति इत्युक्ते तेषां ते संलग्नं सदा भवति किन्तु आ, कदा प्रकटीकरणं भवति किञ्चित् कोऽपि केटलिस्ट् इत्युक्ते किञ्चित् निमित्तं भवति वा उत्तमः उत्तमः प्रश्नः उत्तमः प्रश्नः सः विषयः अस्य करपत्रस्य सृष्टिः कथं जायते इति सः एव विषय विषयः प्रकृतिः पुरुषः तत्र द्वयमपि अस्ति तर्हि किमर्थं सृष्टिः कदा जायते किमर्थं निर्गुणः इति वयं वदामः किमर्थं सगुणः इति वयं वदामः कुत्र कदा जायते यथा तत्र केटलिस्ट् किम् अस्ति इति एव विषयः अस्मिन् करपत्रे अतः भवत्याः प्रश्नः उचितः अस्ति तस्य विषये वयं पश्यामः अवश्यं पश्यामः आम् यतोहि क्रमेण गन्तव्यं खलु अतः क्रमेण वयं गच्छामः अस्मिन् करपत्रे भवत्याः प्रश्नस्य अवश्यम् उत्तरं लभ्यते आं धन्यवादः अस्तु तर्हि अत्र स्थगनं कुर्मः कोऽपि प्रश्नः नास्ति चेत् सर्वेभ्यः नमस्कारः धन्यवादः च धन्यवादः धन्यवादः